ॐ शि ॐ शि परात्परा शिव ॐकारा शिव तव शरणम् ॐ शि ॐ शि पराक् शिव ॐ कारा तव शरणं नमामि शङ्कर भवानि शङ्कर उमामहेश्वर तव शरणम् नमामि शङ्कर भवानी शङ्कर उमामहेश्वर तव शरणम् ॐ शिव ॐ शिवपरात्परा शिव ॐकारा शिव तव शरणम् ॐ शिव ओं शिव परात्परा शिव नमामि शङ्कर भवानि शङ्कर उमा महेश्वर तव शरणं नमामि शङ्कर भवानि शङ्कर उमा महेश्वर तव शरणम् ॐ शिव ॐ शिव परा परा शिव तव शरणम् शिव ओङ्कारा शिव तव शरणं नमामि शङ्कर भवानि शङ्कर उमा तव शरणं नमामि शङ्कर भवानि शङ्कर मा तव शरणम् ॐ शिव ॐ शिवपरात् परा नमामि शङ्कर भवानि शङ्कर उमा महेश्वर अवशरणं नमामि शङ्कर भवानि नमामि शङ्कर भवानि शङ्कर उमामहेश्वर तव शरणं नमामि शङ्कर भवानि शङ्कर उमामहेश्वर तव शरणम् ॐ शिवौ शिवपरात्परा शिव ओङ्कारा शिव तव शरण नमामि शङ्कर भवानि शङ्कर उमा तव शरणं नमामि शङ्कर भवानि शङ्कर तव शरणम् ॐ शिव ॐ शिव परात्परा शिव ओङ्कार शिव तव शरणम् ॐ शिव ॐ शिव परात्परा शिव शिव तव शरण नमा शंकर भवानी शंकर उमा महेश्वर तव शरण नमा शंकर भवानी शंकर उमा महेश्वर तव शरण ओ शिव शिव परात् शिव ओंकारा शिव तव शरण ॐ शिव ॐ शिव परा परा शिव ओङ्कारा शिवभव शरणं नममि शङ्कर भवान् शङ्कर ॐ परा शिव परात्परा शिव ओङ्कारा शिव तव शरणं ॐ शिव ॐ शिव परात्परा शिव ॐकारा शिव तव शरणं नमामि शङ्कर भवानि शङ्कर उमा महेश्वर तव शरणं नमामि शङ्कर भवान् शिवों शिवपरात्परा शिवोङ्कारा शिव तव शरणम् ॐ शिवों शिव परात्परा शिवोङ्कारा शिव तव शरणं नमामि शङ्कर भवानी शङ्कर ओमा महेश्वर तव शरणं नमामि शङ्कर भवानि शङ्कर मा महेश्वर शिवों शिवपरात्परा शिवोङ्कारा शिव तव शरणम् ॐ शिवों शिवपराप्परा शिवोंकारा शिव तव शरणं नमामि शङ्कर भवामी शङ्कर मा महेश्वर तव शरणं नमामि शङ्कर भवामी शङ्कर मामहेश्वर तव शरणं ॐ शिवों शिवपरापरा शिवोंकारा शिव तव शरणम् ॐ शिव ॐ शिव परा परा शिव ओं तारा शिवभव शरणं नमामि शङ्कर भवामि नमा शंकर भवानी शंकर मा महेश्वर तव शरण नमा शंकर भवानी शंकर माँ महेश्वर तव शरण